गणेशपुराणं क्रीडाखण्डम् अध्यायं सिक्स्टि टु क उवाच रौद्रकेतोस्तु या भार्या शारदाख्या द्विजस्य सा विदद्भ्यामुपविष्टा सा सखीभिः कौदुकान्विता का नरान्तकस्य च माताभिर्दर्शः पदिदं प्राङ्गणे कर्णकुण्डलाभ्यां विराजितं नादयत्पत्तनं सर्वं शिखरं पार्वतं यथा श्यामलं हिमसं सृष्टं विशोभं कमलं यथा बिभ्यदो रौद्रके दुश्च शारदाकादविह्वला सावधानौ ददृशदु रुददस्म भृशं तदा लुण्डदस्म धरण्यान्तौ ताडयन्तौ च वक्षसि मूर्च्छामवापदुरुभौ मुहूर्तादिवचेतनां मादाशुशोच तदा हृदि चक्रन्दे विह्वला गौ मृदवत्सा यधा भृशं शारदो वाच वीरश्रिया व्याततनुरणायैव वा समुत्सुकः प्रोक्तवान् न हि किञ्चिन्मामिदानीं गिरमाहर क्व ग पूर्वकायस्ते शिरसैव समागधः एकाकी कथमायाध क्व दे सैन्यं महत्तरं क्व दे जलधरा या सांश्चत्रचामरधारिणः यं कधम्लानदो रविस्तागो यदम ते पिता वा वत्सल न कि वदसे नुदश्रु प्रमाजन परार्ध्याणे मंचक क्वेदानीं परिसुप्तोऽसि किद्यदे मे मनो भृशं विना भूतौ त्वया नेष वास्यं सन्दर्शितुं सुधक उवाच शारदायाशुजं श्रुत्वा रौद्रके दुःशुशोचः विना प्रियात्मजा प्रत्यहं सर्ववृत्तान्तं जातं भाविनमेव च संस्रावयसि स्वस्थानमिदानीं किन्न भाषसे यदि त्वं सम्मुखे युध्यन्धारापूतो दिवङ्गदः ममापृच्छं त्यक्त्वा कथं त्वं परिजग्मिवान् कथं त्वया कृदा पित्रोः पुत्रता शत्रुतापि च यदात्वं त्वं सेवककरात् खड्गं गृह्णासि स्वं करे तदा सपर्वदवना स स्वर्गाकम्पदे च भूः स पादिदो मह्यां न जाने कालपर्ययम् दैवं हि बलवल्लोके पौरुषं तु निरर्थकं भूषणं मम वंशस्य लोकस्य च गदं क्व नु लोकस्यापि चयक्कालः पञ्जास्योरिगजस्य यः स कथं त्वं द्विधा भूतो वादाहद इव प्रतापसविता राज्यं स्थूलदाह हुदाशनः क उवाच एवं नानाविधं शोकं रौद्रके दुश्च शारदा कृत्वा मूर्धानमादाय देवान्तगमगच्छदां भद्रासनात्समुद्धाय त्वरयातौ तथा दृष्ट्वा कंठं समालिङ्ग्य रुरोदरजं तदा तत्परिवारभूदाय दैत्यकालयमोपमाः रुरोदु सुस्वरं तत्र दृष्ट्वा नारान्तकं शिरः माधुर्हस्ता शिरो गृह्य त्वत्स्वे चक्रन्तकुरी वा सौभ्रातृस्नेहेन दुःखितः देवान्तक उवाच समं भुक्तं समं पीदं क्रीडितं सुप्तमुद्धिदं समं तप्तं समं जप्तं क्व गदोऽसि विहाय यस्य दे दर्शनान् मर्त्या सुरायान् स कथं निहधकेन दुष्टेन च बलीयसा रसा रसातलं चैव तवैव च निवेदिदं विहाय स्वर्गं गदोसि भ्राद्र वत्सला सिभ्रातृवत्सला यस्य ज्ञाघोषमाकर्ण्यकम्पदे स्म चराचरं। असङ्ख्यादा नृपा यस्य साम्ने द्वारगदा बभुः स कथं पिदरौहित्वा गदश्च सुन्दरां स्त्रियं एवं तत्क्रन्दनं श्रुत्वा विरलोकासमाययुः हे दुभिर्वारयामासुर्बला धृत्वादु तत्करैः जना ऊजुः न वीराः परिशोचन्ति वीरे युद्धे खदे नृप निघ्नन्दितं बलात् गत्वा येनासौ निहतो भवेद मृत्युस्तु सर्वजन्तूनां सह देहेन जायते शोद्यवर्षशदेनापि भविष्यदि भविष्यदिनसंशयः। स्वस्य वाण्यस्य वा राजस्तत्र परिदेवना श्रुत्वा वाक्यं तु लोकानां तदा देवान्तकोऽसुरः सावधानमना भूत्वा पितरौ प्राहधर्मविद मा शोचतमसं यामिग्रसितुं तं निजं रिपुम् वदतं क्व निवासोऽस्य येन बन्धुहदो मम तं हत्वा सुखमेष्यामि बन्धुं यास्यामि वामृदः मम भ्रूभङ्गमात्रेण कम्पदे भुवनत्रयं मयि क्षुब्धे दुःखस्त्रादालोकानां पितरौ यतः श्रुत्वा देवान्तकवचः आश्वस्थौ ता उभौ तदा शोकसागरमग्नौ तावद्धतौ तेन वाक्यदः ऊच दुःपरमं वाक्यं ज्येष्ठपृष्ठौ सविस्तरं काशीराजेधिविख्यातो राजा परमधार्मिकः वैवाहिको महोत्साह आकारिताजना कश्यप सब वा बलवान्विनायक स्मृत तेना पदों भ्र धूम्राक्षो मम पुत्रक तस्य प्रत्याम्नाय कृते प्रेषिता वीरसम्मताः धावमानायययययुस्तेजसहस्रार्धं निशाचराः सप्तवर्षेण ते सर्वे नाशिदा मुनिसूनुना तेषां प्रत्याम्नाय कृते स्वयं यादो नरान्तकः अनेकशस्त्रसम्पन्नश्चतुरङ्गबलान्वितः ये कोऽपि नाकतस्तस्मादगस्माद् ददृशे शिरः शोकं कृत्वा तव पुर आनीदं तच्छिरोऽधुना क उवाच यदि तद्वाक्यमाकर्ण्य चकम्पे रक्तलोचनः देवान्तकश्चोदधिष्ठद्ग्रसन्निव जगत्त्रयम् उवाच कर्वमोहेन पितरं वेगवत्तरं कालं हनिष्ये किलग्नं। लग्नं न्युब्जां पृथ्वीं करिष्ये क्रोधदृष्ट्वैव ब्रह्माण्डं भस्मसात्क्षणाद इत्युक्त्वा क्षुयेडिदम् कृत्वा जगदिं कम्पयन्निव देवाधिकारे ये दैत्यास्तान् सर्वानाजुहावच नत्वा तौ वाक्यं प्रोचे देवान्धकस्तदा इदानीं मुनिपुत्रं तमानयिष्यामि सत्वरं सहैव तेन दास्यामि मूर्ध्न्यस्य च धनञ्चयं यवमुक्त्वा बलात् सर्वे उड्डीय सहसा च ते देवान्तकोप्यसङ्ख्यादा विहङ्गा इव शीघ्रगाः काशीराजपुरीं प्राप्य वेष्टयेयुः समन्ततः कोलाहलो महानासीद्रजः साच्छादिदादिशः न प्रकाशो रवेरासीत् पौराश्च चुक्रुशुर्भृशं नरान्तके हदे द्वित्रिदिवसानैव यद्गताः तत्कथं पुनरायाधप्रलयोऽत्र जनाभहः कोयं प्रचण्डदेहेन दुष्प्रेक्ष्यो वै क्षमहकालं क्षमः कालं कलयितुं वा जगत्त्रयं दैत्यानां परिखाजागाः प्रेषिता दैत्यपुङ्गवाः गतास्ते नाधदे सर्वे गन्तुं मार्गो न विद्यते एवं ततस्तु पौरेषु तावदूदाः समागताः काशीराजं देवान्तक समागमं यदि श्रीगणेशपुराणे खंडे नगरी निरोधो क्रीड़ाखंडे नगरीतम ओं